नारायणीयं दशकं सिक्स्टि सिक्स् मीटर् गीति उपयातानां सुदृशां कुसुमायुधबाणपादविवशानाम् अभिवाञ्छितं विधातुं कृतमतिरपिता जगाधवाममिव गगनगदं मुनिवसं श्रावयितुं धर्मं। धर्म्यं कलुदे वचनं कर्म तु नो निर्मलस्य विश्वास्यम् आकर्ण्यते प्रदीपाम् वाणी मेणी दृश्यः परं दीनाः मामा करुणासिन्धो परित्यजेत्यधिचिरं विले पुस्ताः तासां हृदितैर्लपितैः करुणाकुलमानसो मानसो मुरारेत्वं। ताभिः समं प्रवृत्तो यमुना पुलिनेषु काममभिरन्धुं चन्द्रकरस्यन्दलः सत्सुन्दरयमुना तडान्तवीषु गोपीजनोत्तरीयैरापादितसंस्तरोन्यशीदस्त्वम् सुमधुरनर्मालपह्नैकरसङ्ग्रहणैश्च चुम्बनोल्लासैः गाढालिङ्गनसङ्गैस्त्वमङ्गना लोकमाकुली चकृषे वासोहरणदिने यद्वासोहरणं प्रतिश्रुदं दासां तदपि विभो रसविवशस्वान्दानां कान्द सुभ्रुवा मदधाः कन्दलितकर्मलेशं कुन्दमृदुस्मेरवक्त्रपादोजं नन्द सुदत् त्रिजगत्सुन्दरमुपगूह्य नन्दिदा बालाः विरहेष्वङ्कारमयः शृङ्गारमयश्च सङ्गमेऽपि त्वम् नितरामङ्गारमयस्तत्र पुनः सङ्गमेऽपि चित्रमिदम् राधा तुङ्गपयोधर साधु परीरम्भलोलुपात्मानम् आराधये भवन्तं पवनपुराधीश सकलगदान् सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द